मुद्गलपुराणं खण्डं नयन् योगचरितम् अध्यायम् 31 वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं श्रीगणेशाय नमः सूत उवाच नानातपः परकुत्सत्साक्षाद्विजवरो भवद तपसा शुद्धभावः श्रद्धापरायणः शमीदमपरो भूत्वा जडोन्मत्तादिकं परं चचार स तदशाकृते भवद्ब्रह्मणि तन्मयः नामरूपात्मकानां तद्ब्रह्मा सत्संज्ञकं मदं तज्ज्ञात्वा शान्तिहीनश्च बभूवे खेदसंयुतः तत्रागदम् स योगीन्द्रं याज्ञवल्क्यं प्रदापिनं ननामतं महाभागं कुत्सो धर्मविदुत्तमः सम्पूज्य हर्षसंयुक्तः पप्रच्छ विनयान्विदः वदयोगम् महायोगिन् शान्दिदं योगिनां मदं याज्ञवल्क्य उवाच पञ्चचित्तमयी बुद्धिस्सयोगायोगरूपिणी तस्यां भ्रान्तिप्रदासिद्धिर्नानासिद्धिप्रदर्शिनी तत्र बिम्बं गणेशस्य पतितं मोहधारकं बिम्बभावं परित्यज्य ब्रह्मीभूतो भविष्यसि तदर्थं वक्रतुण्डस्याराधनं गुरु सर्वदा तेन शान्तिसमायुक्तो भविष्यसि न संशयः बिम्बं मायायुधं प्रोक्तं मोहितं सिद्धिबुद्धिगं तद्भावं हन्तितुण्डेन तेनायं वक्रतुण्डकः मायासुखं नराकारं तस्मद्वक्रं परं मुखं तयोर्ब्रह्म समायोगे वक्रतुण्डोऽयमुच्यते कण्ठाधो माययायुक्तो मस्तकं तद्विवर्जितं वक्राख्यं तस्य विप्रेष्य तेनायं वक्रतुण्डकः अनेनार्थेन संयुक्तं वक्रतुण्डं भजस्व तेन शान्तिसमायुक्तो गणपत्यो भविष्यसि एवमुक्त्वा यौ योगी याज्ञवल्क्यो महायशाः कुत्सो हर्षसमयुक्तो वक्रतुण्डपरो भवत ततः स्वल्पेन कालेन शान्तिं लेभे महामुनिः गाणपत्यस्वभावेन भजत्तं वक्रतुण्डकं कुत्सो नित्यमहायोगी वक्रतुण्डचरित्रकम् कण्ठं पपाठभक्र्यास मौद्गलस्य सुहर्षितः तस्य गेहे कदाचित्तु अगमत् शूलसंयुधः भगन्धरयुधः पापी द्विज आङ्गिरसोद्भवः दुःखयुक्तो न नाम सौकुत्संयोगविदाम्बरं स्नात्वा सुष्वापविप्रेष तत्सान्निध्येऽधिदुःखितः कुत्सो गणेशं सम्पूज्य पठत्तं वक्रतुन्दगं चरितं सोऽपि शुश्रावनायासेन गृहे स्थितः सम्पूर्णे संश्रुते तत्र रोगहीनो बभूवः प्रणम्याङ्गिरशस्तं च ययौ स्थानं स्वकीयकम् भुक्त्वा सविधान् भोगान् जगामान्दे गणेश्वरं चित्रमाङ्गिरसोद्भुतं पश्य शौनकते नमः एवं नानाजनासिद्धिं ययुश्रवणमात्रदः वक्रतुण्डचरित्रस्य मौद्गलस्तस्य मानद तत्रैवं कतिदे ब्रूयां मया वक्तुं न शक्यते अतः सङ्क्षेपतः प्रोक्तं महात्म्यं श्रवणे भवम् ॐ तत्सदि श्रीमदान्द्ये श्रीमन्मौद्गले महापुराणे नवमे योगजरिदे योगामृतार्थशास्त्रे दक्षमुद्गलसंवादे वक्रतुण्डचरितश्रवणमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ओम्